गणेशपुराणं क्रीडाखण्डम् अध्ययं 138 अण्ड् तर्टि एय्ट् क उवाच एवमेव पुरा पृष्टश्चनकेन महात्मना ससूदकथयामासगीतां व्यासमुखाश्रुदां सूद उवाच अष्टादशपुराणोक्तममृतं प्रासितं मया ततोतिरसवत्पातुमिच्छाम्यमृतमुत्तमं येनामृतमयो भूत्वा पुमान् ब्रह्मामृतं यदः योगामृतं महाभाग तन्मे करुणया वद व्यास उवाच अथ गीतां प्रवक्ष्यामि योगमार्गप्रकाशिनीं नियुक्ता नी पृच्छदे सूतराज्ञे गजमुखेन यया वरेण्य उवाच विघ्नेश्वरमहाबाहो सर्वविद्याविशारद सर्वशास्त्रार्थतत्त्वज्ञयोगं मे वक्तुमर्हसि गजानन उवाच सम्यग्व्यवसिदा राजन्मदिस्तेऽनुग्रहान् मम शृणु प्रवक्ष्यामि योगामृदमयीं नृप न योगं योगमित्याहुर्योगो योगो, योगो न च न योगो विषयैर्योगो न च मात्रादिभिस्तथा योगो यः पितृमात्रादेर्न स योगो नराधिप यो योगो बन्धुपुत्रादेर्यश्चाष्टभूदिभिः सह न स योगो जगदुद्भूतरूपया राज्ययोगश्च योगो नयोगो योगो गजवाजिभिः योगो नेन्द्रपदस्यापि योगो योगार्थिनप्रियः योगो यः न योगो मदो मम शैवस्य योगो नो योगो वैष्णवस्य पदस्य च न योगो भूपसूर्यत्वं चन्द्रत्वं न ना कुबेरता नानिलत्वं नानलत्वं नामरत्वं न ना कालता वारुण्यं नैरृत्यं योगो न सार्वभीमदा योगं नानाविधं भूप युज्यन्ति ज्ञानिनः स्तुतं भवन्ति विदृशा जिदाहारा विरेतसः कृद पानयन्त्यखिलाल्लोकान्वशीकृतजगत्त्रयाः करुणा पूर्णहृदया बोधयन्ति च कांश्चन जीवन्मुक्ता हृदेमग्नाः परमानन्दरूपिणि निमील्याक्षीणि पश्यन्तः परं ब्रह्म हृदि स्थितम् ध्यायन्तः परमं ब्रह्मचित्ते योगवशीकृतं भूदानि स्वात्मना तुल्यं सर्वाणि गणयन्दिते येन केनचिदाच्छिन्ना येन केन चिदासताः येन केनचिदाकृष्टा करुणापूर्णहृदया भ्रमन्ति धरणीतले अनुग्रहाय भूतानां जिदक्रोधा जितेन्द्रियाः देहमात्रभृदो भूपसमलोष्टास्मकाञ्चना येदादृशा महाभागास्युस्त चक्षुर्गोचरा प्रिया तमिदानीमहं वक्ष्ये शृणु योगमनुत्तमं श्रुत्वा यमुच्यते जन्तुः पापेभ्यो भवसागराध शिवे विष्णौ च शक्रौ च सूर्ये मयि या भेदबुद्धिर्योगः स सम्यग् योगो मदो मम अहमेव जगद्यस्मात् सृजामि पालयामि च कृत्वा नानाविधं वेषं संहरामि स्वलीलया अहमेव महाविष्णुरहमेव सदाशिवः अहमे महाशक्तिरहे वर्मा प्रिया नाधो अहमेको नृनाम ना जाधपंच विधुरा अं न जानी जगत्कार मत्पोधरणी मत्त आकाशम ब्रह्मा विष्णुश्च रुद्रश्च लोकपाला दिशो दश वसवो मनवोगावो मुनयः पशवोऽपि च सरितः सागरायक्षा वृक्षाः पक्षिगणा अपि तथैकविंशतिस्वर्गा नागा सप्तवनानि च मनुष्या पर्वता साध्यासिद्धारक्षो गणास्तथा अहं साक्षी जगच्चक्षुरलिप्तः सर्वकर्मभिः अविकारो प्रमेयोहमव्यक्तो विश्वगोव्ययः अहमेव परं ब्रह्मा व्ययानन्दात्मकं नृप मोहयत्यखिलान् माया श्रेष्ठान्मनरानमून् सर्वदा षड्रविकारेषु हि जापटलं जन्तुरनेकैर्जन्मभिश्शनैः विरज्यविन्ददिब्रह्मविषयेषु सुबोधतः अच्छेद्यं शस्त्रसङ्घादैरदाह्यमनलेन च अक्लेद्यम्पज वनैरशोष्यं मारुतेन च अवध्यं वध्यमानेऽपि शरीरेऽस्मिन्नराधिप यामिमां पुष्पितां वाचं प्रशंसन्धिःश्रुतीरिदां त्रयीवादरदा मूढास्ततोऽन्यन्मन्वतोऽपि न कुर्वन्ति सददं कर्मजन्म मृत्युफलप्रदम् चेदना स्वर्गैश्वर्यरदाध्वस्तचेतना भोगबुद्धयः सम्पादयन्ति ते भूयस्वात्मना निजबन्धनं संसारचक्रं युञ्जन्ति जडाकर्मपरा नराः यस्य यद्विहितं कर्म, कर्म तत्कर्तव्यं मदर्पणम् ततोऽस्य कर्म बीजानामुच्छिन्नास्योर्महाङ्गुराः चित्तशुद्धिश्च महदि विज्ञानसाधका भवेद् विज्ञानेन हि विज्ञातं परं ब्रह्ममुनीश्वरैः तस्मात् कर्माणि कुर्वीद बुद्धियुक्तो न त्वकर्मा भवेत्कोऽपि स्वधर्मत्यागवांस्तथा जपादि यदि कर्माणि तदसिद्धिं न विन्दति आदौ ज्ञानेनाधिकारकर्मण्येव स युज्यते कर्मणा शुद्धहृदयो भेदबुद्धिमुपैष्यति स च योगसमाख्यादो मृदत्वा यदि कल्पते योगमन्यं प्रवक्ष्यामि शृणु भूपतमुत्तमं पश्य पुत्रे तथा मित्रे शत्रौ बन्धौ सुहृज्जने बहिर्दृष्ट्या च समया हृत्थया लोकयेत्पुमान सुखे दुखे मर्षे हर्षे समो तषेर्षेद समोवत रोगा जे वा विजिए चियो योगे चोकेलाभे मृदी समोम वस्तुषु पश्य बिस्थित सूर्ये सोमे जले वाह्नौ शिवे शक्तौ तथानिले द्विजे हृदे महानद्यां तीर्थे क्षेत्रे खनाशिनी विष्णौ च सर्वदेवेषु तथा यक्षोरगेषु च गन्धर्वेषु मनुष्येषु तथा तिर्यग्भवेषु च सततं मां हि यः पश्येत् सोऽयं योगविदुच्यते सम्परीहृत्य इन्द्रियाणि विवेकतः सर्वत्र समदा बुद्धिः स योगो भूपद्मे या बुद्धिर्दैवयोगतः स्वधर्मासक्तचित्तस्य तद्योगो योग उच्यते धर्माधर्मौ जहातीह तथात्युक्त उभावपि ततो योगाय युञ्जीदयोगो वैधेषु कौशलम् धर्मा धर्मफले त्यक्त्वा मनीषी विजितेन्द्रियः जन्मबन्धविनिर्मुक्तस्थानं संयात्यनामयम् यदा ह्यज्ञानकालुष्यं जन्धोर्बुद्धिक्रमिष्यति तदा वेदवाक्यादि शुक्रमाद। त्रयी विप्रतिपन्नस्य स्थाणुत्वं यास्यते यदा परात्मन्यचला बुद्धिस्तदा स योगमाप्नुयाद कामान् यदा धीमां प्रिय स्वात्मनि स्वेन सन्तुष्ट वितृष्णः नोद्विग्नो नोद्विघ्नो दुःखसङ्गमे गदः साध्वसरुद्रागस्थिरबुद्धिस्तदोच्यते यथायं कमठोऽङ्कानि सङ्कोच यदि सर्वतः विषयेभ्यस्तथा कानि व्यावृदन्तेस्य विषयास्त्यक्ताहारस्य वर्ष्मिणः विना रागं च रागोऽपि दृष्ट्वा ब्रह्मविनश्यति विपश्चिद्यतदे भूपस्थितिमास्थाय योगिनः मन्थयित्वेन्द्रियाण्यस्य हरन्ति बलतो मनः युक्तस्तानि वशे कृत्वा सर्वदा मत्परो भवेद संयतानीन्द्रियाणिह यस्य सकृतधीमदः चिन्तयानस्य विषयान् सङ्गस्तेषूपजायते कामः संवर्धते तस्मात् तद क्रोधादज्ञानसम्भूदिर्विभ्रमस्तु ततस्मृतेः भ्रंशास्मृतेर्मतेर्ध्वंसस्तध्वं सात्सोऽपि नश्यति विना द्वेषं च रागं च गोचरान्यस्तखैश्चरेद स्वाधीनहृदयो वश्यै सन्तोषं स समृच्छति त्रिविधस्यापि दुःखस्य सन्तोषे क्षेपणं भवेद् प्रज्ञया संस्थितश्चायं प्रसन्नहृदयो भवेद् विनाप्रसादं प्रसादं न विना तां न शमो भोपविना तेन कुतः सुखम् इन्द्रियाश्वान्विचरतो विषयाननुवर्तते यन्मनस्तन्मतिं हन्यादश्वनावं मरुद्यथा या रात्रिः तस्यां निद्रादिनैव सः न स्वपन्दीह ते यत्र स रात्रिस्तस्य भूमिप सजितां पदिमायान्दिवनानि सर्वतो यथा आयान्दितं तथा कामाः सना सदा लभेद अधत्तानीह समृद्ध्य सर्वदःखानि मानवः स्वस्वार्थेभ्यः प्रधावन्दिबुद्धिरस्त्य स्थिरा तदा मम दाहङ्कृति त्यक्त्वा सर्वान् कामांश्च यस्त्यजेद् नित्यं ज्ञानरदो भूयात् ज्ञानान्मुक्तिं प्रयास्यति येनां ब्रह्मधियं भूपयो विजानादिदैवतः तुरीयावस्थां प्राप्यापि शीलान्मुक्तिं स ऋच्छति ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थं शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे साङ्ख्ययोगसारार्थं योगो नाम प्रथमोऽध्यायः इति श्रीगणेशपुराणे अष्टत्रिंशदधिकशततमोऽध्यायः ओम्